ओम हरि ओ श्रीगुरभ्यो नम गणपर्वीर्षोपन ओम भद्रम दधा ओ भद्रम कर्णे श्रृणुयाम देवा भद्रम पश्येम्भ स्थिर सुषुवागम सतनू व्यसेमदेवहि दय्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्तिशान्तिः अध गणपत्यथर्वशीर्षं व्याख्यास्यामः ॐ नमस्ते गणपदये त्वमेव प्रत्यक्षं तत्त्वमसि त्वमेव केवलं कर्तासि त्वमेव केवलं धर्तासि त्वमेव केवलं हर्तासि त्वमेव सर्वं खल्विदं ब्रह्मासि त्वं साक्षादात्मासि नित्यं ऋतं वच्मि सत्यं वच्मि अव त्वं माम् अववक्तारम् अवश्रोतारम् अवदातारम् अवधातारम् अवानोचानमवशिष्यम् अवपश्चात्ताद अवपुरस्ताद अवोत्तरात्ताद अव दक्षिणात्ताद अवचोर्ध्वात्ताद अवाद्धरात्ताद सर्वतो मां पाहि पाहि समन्ताद त्वं वाङ्मयस्त्वं चिन्मयः त्वमानन्दमयस्त्वं ब्रह्ममयः त्वं सच्चिदानन्दाद्वितीयोऽसि त्वं प्रत्यक्षं ब्रह्मासि त्वं ज्ञानमयो विज्ञानमयोऽसि सर्वं जगदि दन्त्वत्तोजायते सर्वं जगदि दन्त्वत्तस्तिष्ठति सर्वं जगदि दन्त्वयि लयमेष्यदि सर्वं जगदि दन्त्वयि प्रत्येधि त्वं भूमिरापो नलो निलो नभः त्वं चत्वारिवाक्पदानि त्वं गुणत्रयातीतः त्वं अवस्थात्रयातीतः त्वं देहत्रयातीतः त्वं कालत्र त्वं मूलाधारस्तितोऽसि नित्यं त्वं शक्तित्रयात्मकः त्वं योगिनो ध्यायन्ति नित्यं त्वं ब्रह्मत्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्मभूर्भुवः सुवरोम् गणादिं पूर्वमुच्चार्यवर्णादिं तदनन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितम् रेण रुद्धं येदत्तवमनुस्वरूपं गकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारश्चान्द्यरूपं बिन्दुरुत्तररूपं नादः सन्धानं सगुंहिता सन्धिः निसृदाय त्रीच्छन्तः ओम ॐ नमः एकदन्दाय वित्महे वक्रतुण्डाय धीमहि तन्नो दन्दिः एकदन्दाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्दिप्रचोदयात् एकदन्दाय विद्महे वक्रतुन्दाय धीमहि तन्नो दन्दिः प्रचोदयात् एकदन्तं च दुर्हस्तं पाशमङ्कुशधारिणं रदं च वरदं हस्तार्बिभ्राणं मूषकध्वजं रक्तल्लम्बोदरं शूर्पकर्णकं रक्तवाससं रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितं भक्तानुकम्पिनन्देवं जगत्कारणमच्युदम् आविर्भूदं च सृष्ट्यादौ प्रकृतेः पुरुषात् परं येवन् ध्यायधि यो नित्यं स योगी योगिनां वरः नमो व्रातपदये नमो गणपदये नमः प्रमदपदये नमस्ते अस्तु लम्बोदराय एकदन्ताय विघ्ननाशिने शिवसुधाय श्रीवरदमूर्तये नमः एतदथर्वशीर्षय्योऽधीते सब्रह्मभूयाय कल्पदे स सर्वविघ्नैर्न बाध्यते स सर्वतः सुखमेथते स पञ्चमहापात् प्रमुच्यते सायमधीया नो दिवसकृतं पापन्नाशयति प्रादरथीया नो रात्रिकृतं पापन्नाशयति सायं प्रातः पापो पापो भवति सर्वत्राधीयानोपविघ्नो भवति धर्मार्थकाममोक्षं च विन्ददि इदमधर्वशीर्षमशिष्यायन देयं यो यदि मोहादास्यति स भवति सहस्रावर्तनाद्यैयं काममधीते तं तम तमनेन साधयेद् अनेन गणपतिमभिषिञ्चति सवाक्मी भवति चतुर्ध्या मनश्नन् जपदि स विद्यावान्भवति इत्यथर्वणवाक्यं विद्याद न बिभेदि यो दूर्वाङ्गुरैर्यजदि स वैश्रवणोपमो भवति यो लाजैर्यजदि स यशोवान् भवति स मेधावान्भवति यो मोदकसहस्रेण यजति स यसाज सभीज सर्वल्ल सर्वल्ल अष्ट ब्राह्मण सम्य ग्राय सूर्यवर्चस्वी सूर्यग्रहे महानद्यां प्रद्निध व्रो भवद महाच्य महादोषात्प्रमुच्यते महाप्रत्यवायात् प्रमुच्यते महापापात् प्रमुच्यते स सर्वविद्भवति स सर्वविद्भवति य एवं वेद इत्युपनिषद सह नावदु सह नौ भुनक्रु सह वीर्यङ्करवा तेजस्विनावधिदमस्तु मा विद्विषावहैः ॐ शान्ति शान्ति शान्तिः ॐ भद्रं दधातु ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः स्तुष्टुवागुंशस्तनूभिः व्यशेमदेवहृदय्यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्ठनेमिः स्वस्ति नो बृहस्पतिर्दधादु